क्रमास्यभिमादिहागागत्रञ्छन्धारो हृथिभिमन विक्रमस्व निर्भक्तः स्वयं तृष्णा विष्णा क्रमास्वस्तिहात्रैष्न्धारो हान्तैक्षमन विक्रमस्व निर्भक्तः स्वयं तृष्णा विष्ण यतो हन्ता जागतञ्छन्धारो हरिगमन विक्रमस्व निर्भक्तः स्वयं यतो हन्त ोहतिशो न विक्रमस्त्व निर्भक्तः स्वयम् दृष्मः आक्रन्ददज्ञस्तनयम् निमद्योः मारिहद्विरुधस्व मञ्जन् सर्जोजज्ञानोदिः मिद्धोह्यदारोदसीभानुनाभात्यन्तः अग्रेभ्यावर्त्यन्नभिनावत्तस्माभिभावत्यसा सञ्ज्ञामेधयाः प्रजनाधनेन अग्ने अङ्गिरः शतम् ते दम् पावृतः सहस्रम् तोपावृतः तासाम् पोषस्य पोषेण पुनर् नष्टमाचधि पुनर्नमाचधि पुनरोज्ञानिवर्तस्तपुनरग्युषायुषा पुनर्नः पाधि विश्वतः सह रनिवर्तस्माज्ञधारया विश्वत्स्रिया विश्वतः उदुत्तमम् वरुणभाय अथावयमादित्यवानागो अधितरेणस्तिष्ठाभिजाचलिः वाञ्छन् तस्मिन् राष्ट्रमधिश्रगा अर्गे बृहम् नृषदामूर्ध्वो अस्थान्यवान्त अग्निर्भाङ्गाजातो विश्वाधर्मान्यप्राः श्रीरत्तम् माधुरस्या विश्वान्यज्ञे मयुना मयुनाभर्त्यजा मादपदाभिजोजोन्तरस्यागम् शुक्रज्ञोतिर्विभाहि अनन्तरज्ञे नृता प्रमुखादेशे स्म तस्यात्मकम् हरसादपञ्जातवेदः शिवो भव शिवोपामह्यमग्नेऽथो चेतशिवस्ताम् शिवाकृत्वादिषः सर्वास्वायः बृहत्पद्वितीयम् परिजातवेदाः तृतीयमप्सु नर्मणाजस्रमिन्धाने स्वाधीः विद्माते अग्ने त्रेता त्रियाणि विद्माते सद्मनिभृतम् पुरुत्रा विग्माते नाम परमम् गुहायद्ध विद्मातमुत्तरञ्जकहागन्धा समुद्रे त्वा नर्मणा अप्सन्तम् प्रदक्षा गीधे दिवो स्थिवाकम् समृतस्थयो नो महिषा हरिवन् अक्रन्दनग्निस्थनैर्णिवद्योः क्षामारेरुधः समञ्जन् सद्यो दिज्ञानोभिः विद्धो अर्घ्यदारोदसे भानुनाभात्यन्तः उषित्पावको अरतिस्तु मेधामर्थेष्वर्विरमृतो निधाये नियत्य धूमऋणम्बरिभदच्छुक्रेण शोचिताद्यामिनक्षते विश्वस्य केसर्भुवनस्य गर्भारोदसे अवृणाज्जायमानः वेडम् चिदग्रिमभिनत्पदारञ्जनाय अग्निमैरन्तपञ्च श्रीरामुतारो धरुणोरजीणाम् मनीषाणाम् प्राप्पणः सोमगोपाः असोः सो नस्थसो अप्सुराजाविभात्यग्रमुषधाभिधानः यस्ते अद्य गिणवद्भद्रशो ये भूपम् देव कृणवन्तमग्ने प्रतन्नयप्रतराम् वस्यो अक्षाभिर्दृन्नम् देवभक्तय निष्ठा आरम्भजधौ सर्वशेष्वर्जमुखमुक्ता प्रियो जातेन भिरदुर्जनित्येः स्वामर्णे यजमाना अद्यो न विश्वापसूलितुभि्याणि सजासभ्रविणमिच्छमाना व्रजङ्गोमन्तबुसिजो विपुः व्यद्यौ दुर्मरिणमाणि श्रियेण प्राणः अन्त्यनवद्रयाभर्यते अन्त्य सुदेताः अन्नपदेऽन्नस्य नोधेत्यण देवस्य चुष्मिणः प्रवृतारन्तारिणवोर्जम् नो धेद्विपदे च दुष्पदे भूत्वा विश्वे देवार्ग्ने भरन् स्व नाभव शिवदमः प्रदीतो विभाव ोतिष्मानयाभिरत्यभिस्त्वम् तदहभ्यर्थानुभ्यर्द्धा सम्पाहित समिधान्दुवश्चन हृदयर्बोधनात्म्य भव्यादिबोतनायमद्यद्भरतस्यो ज्योतलोचने भृहद्भाः अभयः पूर्वम् प्रतमातुरस्थौ नीटायणिमो नः आपो देभे प्रतिग्रन्थे नभस्मैतस्यो ने गुणोद्वम् सुरतापलोके तस्मै न मन्दाञ्जनयस्तु पत्नेः मासेव पुत्रम् विहृलास्त्वेन अप्सर्गे गर्भे च पुनः गर्भो अस्यौषधीनाम् गर्भो वनस्पतीनाम् गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसे सद्यभस्मनायोनिमपश्च पृथिवीमग्ने सर्वं सद्यमातृभिस्पञ्ज्योतिष्मान् पुनरासदः पुनरासद्यमपश्च पृथिवीमग्ने शेषे मातुर्योपस्थेन्दरस्यागम् शिवतमः पुनरुद्रानिवर्तश्च पुनरग्नयुषायुषा पुनरङ्गक्पा विश्वदः स हरैयानिवर्तस्वाग्ने बिम्बस्वधारया विश्वप् विश्वदस्पदे पुनस्त्वा निद्रा रुद्रावसवस्तम् पुनर्ब्रह्माणा वधुनेधयज्ञैः कृते नत्तम् तनुवावर्धयस्पदत्याः सन्तैजमानस्य कामाः अस्य वजतो यस्य प्रभृतस्य स्म भावः युत्वमनुत्व गृणादिबन्धारुस्ते तनुसम् वन्दे अग्ने सबोधिरो निर्मे अपेतवेकतातोपुराणाय तनूतराः पदा यमपदानम् पृथिव्याग्रणिमम् पितरो लोकमस्मै अग्न भस्मास्य पुरेणपतिनम् ज्ञानवतिकामधरणम् वैतकामधरणम् भोजात् संयावप्रयास्तहस्तम् प्रयासृदया आत्मावस्तुतम् प्रियः सम् प्रयास्त भौमः अय्नेस्मींद्रस्तम देशे वसाना गम्मे जावाचा चेषास्ता सौस्तयापति वह अग्नेजर्च दिविवर्च्च पृथिव्यायष्वप्सुवाय च येन अन्तरिक्षमद्वस्तमोक्षाः अग्निलप्रावणेभिस्तोढदः इडदन्ताकम् हव्यमाहुतमनमेवायुषो महेः इडामग्नेपुरुदगम् सकुम् सलिङ्गाश्वत्तमगम् हवमानाय साधा न्न सो नस्तनयो ते सुपतिर्भोः तस्मे अयम् ते यो निर्नित्ययो यतो जातो अनोचः अन्दानन्दग्नः लोहाधानो मध्वनाम् इदसितया देवदयाङ्गिरस्पद्ध्रुवादीत परितसितया देवदयाङ्गिरस्पद्ध्रुवादीतलोकम् प्रणच्छिद्रम् प्रणासोहितशिवात्म इन्द्राग्ने त्वारःपतिरश्मिनावसेडतन् ता हस्य सौदोहरसोमग्नः श्रेणन्ति पृष्ठयः जन्मम् देवानाम् विजः पृष्वारो जने जिवः स्वमितम् सङ्कल्पे धातुम् सम्प्रणौरो जष्णो अग्ने पुरेश्यादिपाभवात्पन्नः पिषमोर्जयजमानादधेः पुरेश्यत्वमग्नेरहिमान् पुष्पिमागम्पे शिवा कृत्वादिनः सर्वा स्वाय्योनमिहासदः भवतन्नस्तमनसौ समो तदापरेपसौ मातेव पुत्रम् पृथिवी पुरेक्ष्यमग्निव्यस्मे यो नाम भारुकेदेवैरदुभ्यः संविधानः प्रजापतिर्विश्वकमिमाभिमुञ्चतु जगदस्य पालेर्दिदः सुग्रञ्जो निरजानः परिणनिर्दिरोस्वाहा नमस्तु ते निरुदयविश्वरूपे यमे रक्त यम्या संविदानन्तलोहेमम् यत्ते देवे निर्दिरामबन्धरामग्रेवा स्वविचर्जम् एतद्गरिष्याम्यायगौनमध्यात्मज स्थितमध्यप्रमुक्तः यस्याः अस्या क्रूर आसञ्ज मेषाम् बन्धानामवसर्जनाय भो विरिजित्वा जनाविदम् निरित्वाऽहम् परिवेद विश्वतः असंवन्तमैदमानमिच्छस्तेन सेत्यास्करस्यान्वेहि अन्यमस्पदिक्षसादयिज्ञा नो देविनिरितजेतुभ्यमस्तु हेमे महन्निरि किम्बन्दमान पिदेव पुत्रम् स एव चोभिः विश्वयमानस्थवेदशिरः शिरः प्रतिसोदे विनष्टे निवेशनः सङ्गमनोऽसूनाम् विश्वारूपाभिजष्टे रजीभिः देवयिपसपिता सत्यधर्मेन्द्रवनस्थौकमलेपथीनाम् संवरत्रा दधातनैराहावान् कणोदरा चिन्तामहावटमुद्रिणम् वयम् विश्वाहारस्तमक्षितम् निष्कृताः वरगुम् सुवरात्रगुम् सुलेदनम् मुद्रिणकुम् चिन्त्यक्षितम् श्रीरायुञ्जन्ति कवयो युगा विकम्बदे पृथगे धीरा देवेणोपदेहबी विराजसृष्ट्यः सफलासम् ने दीर्घनिपङ्कमायु लाङ्कनम् पवीरवगुम् सुषेवकम् सुमतित्सरोषदिकामुलिम् पथर्व्यम् च पीवरीम् प्रस्थाबद्धसवाहनम् सुरन्नफा नामितु तन्त्रभूमिकम् शुनङ्केनाह अभिनन्तुमाह सुम् पर्यन्यामसु नापयोनादीना पुनमस्मातु धत्तम् कामम् कामधुधे दुःखमित्राय वरुणाय च इन्द्रायाग्नय कोष्ठमोढधेभ्यः प्रजाभ्यः धृते नेतामधुना समक्ता विष्मेर्देवेरनुवदावर्धे ओन्यस्पति पयसा पिन्बमानास्मान्सीते पयसाभ्यापकृत्वागमम् पुरा मन्दान्यब्रूणा बहवम् शतम् धामानिधस्तो अम्बधामानि सहस्रमुदमो नुहः अथा सुरक्रब्तो यूयमितम् कृता पुष्पावदे प्रसोपदे फलिणेरफलामुदा अश्वागिव दलित्वः पालयिष्णवः ओढधेर्दिवादलहस्तद्बोधेब्रवे प्रपाकुम् जिह्ने अश्वर्थे वा विषरणम् वर्णे वापदलेत्कृभादरेत्स नवधमोरुणम् रामम् वाजयन्निवा वोढधेरहस्तादधे आत्मा लक्ष्मस्तनश्यति पुराजीवगृभो यथा यतोषधयः सङ्गच्छन्ते राजानः स्तमितामिव हरि प्रस्तोच्यते विषग्रक्षोहामेवतनः नामवो माताथा यज्ञः सनापर्तिः समय नामयतेष्कदा अन्यावो अन्यामवत्मन्यान्यस्या उभावताोषधयः संविधानादिलम् मे ष्मा वोषधे नाङ्गावगोष्ठादिवेदते नरकम् करिष्यन्ति नामात्मानन्तवपोरुढरिष्वाः परिष्ठास्त्रेणैव व्रजवप्रमुः ओषधयप्रायुच्चपर्यक्किञ्च तनुवाः या स्तः दत्तुः आत्मानय्याः वेदुःपरः परो तास्त्रेण क्षम् विबाधन्तामुग्रो मध्यमजेर साकै्यक्ष्मप्रपदश्येन केविना साकम् वातस्य अभ्याज्ञा साकम् न निशाकया अश्वापते गुम् स्वामपते मोर्जयन्ते मुदोच आविक्षि सर्वा वोढधे रस्नाष्टदा फलिमेर्याफला या वोढुदय सोमराग्ने प्रविष्टा पृथिवे मनो तमस्युत्तमा प्रणो जीवादवे अवपदन्तेरवदन्ति वोढदयः परे यन्त्येवमश्नवा महेण दर्श्यादिवोरुढः याश्चै नमो शर्मन्ति याश्च दूरम् परागताः विहरङ्गर्कलाः सर्वा अस्मै न मावोर्यःखनिता यस्मैताहम् खनामिवह निवचस्माकम् सर्वमस्मनामनम् ओर्वन्ते सोमेन सह राज्ञाः तस्मै करोतिब्राह्मणस्तदौराजम् पारयामहि मानव हिवंसे जताय पृथिव्यायो वादिवकुम् सर्मा जान यश्चापश्चन्द्राहतेऽर्गजा निरस्मै देवाय हविषा विधेम देवा। अभ्यावर्तस्त्वपृथिवीण्येन वयथा सह अभान्तेरग्निर्हितोपसर्पतो अर्गे यत्ते शुक्रयच्छन्द्रैयत्पूतयद्विज्ञम् तद्देवेभ्यो भरामते इषमोर्जमहमिताम् न अमृतस्तयोनेः आनोकोषमिधर्कोषे रामैव आज्ञेतवश्रवोपयो बहि विभावत बृहद्भावो तव सामाजमुख्यम् तथापिता यद्यन्नग्ने प्रथयस्व जन्तुभिरस्मे राजो अमर्त्या सदलशतस्य ो जानपाजानवेदस्य सस्तिभिर्मन्दस्पथेतुः ह्रन्दशब्भोरिवेतरस्य पावकवर्जा शुक्रवर्जा अनोनवर्चा उदयरि भारुणा पुत्र पितरापितरन्नुपापस्य भयुणक्षिलोदधि तदावानम् महिषम् विस्तचरिण्यम् सम्नायदधि गुरोजनाः म् सप्रसस्तवन्तानुषायुगा निष्कर्तारमद्भरस्य प्रजयन्तयम् चिरस्थपरितया देवदयाङ्गीत आप्यायस्पथमेष्पदस्वामवृष्णम् कथे हन्तेऽपजागुम्सितमुयन्तु वागाः स्वृष्ण्यभिमानि आज्ञायमानो अमृताय सोमधि विश्ववायश्च उत्तमानिष्वा अभ्यस्थाद्यष्पातना अराजेश्वरज्ञाः सोमाः बृहस्पतिः स्ववितातन्वाः पूषाबाधात् सुकृतश्च लोके निरक्रन्दः प्रथमम् जायमानमुद्रहान्तमुद्रानुलवापुरीढान् एनस्य पक्षाहऋणस्य बाहो वस्तुरञ्जलिमतत्ते अर्वन् अपारम् पृष्ठमधिजो समुद्रमभिदः पिण्वपानम् वर्धमानम् महाजपुष्करम् निममात्रया वरिणा प्रथस्व ब्रह्मरिज्ञानम् प्रथमम् पुरस्ताद्भिः मदस्नृजो मेनावह स बुद्धया उपमास्येष्ठा सहश्रयो निमसनश्चविवः हिरण्यगर्भस्तमः जातः पथिरेखासीत् सदाधारपृथिवेय कस्मै देवाय हमिषा दक्षश्च स्कन्दपृथिवेम्याम्यम् चयो च भोर्मः सञ्चरन्तम् दक्षम् चेभ्यो च पृथिवे ए ए े अन्तरिक्षेये जिविजेभ्यः सर्पेभ्यो नमः हे गौरोसूर्यस्य रश्म्ये कामन्तेभ्यः सर्पेभ्यो नमः यायिरोधानामनश्वभ्यः सर्पेभ्यो नमः ध्रुवासिधरुणास्तु विश्वकर्मणा सुकृदा आत्त्वासु मुद्रमुत्पथेऽन्मासु पर्माप्यसमाना पृथिवेन्द्रगंहा ष्पादावय्याः पृष्ठे वृहस्पतिं प्रथस्पतिं प्रथोदिपतिव्यतिभोरतिभोस्य विश्वधाया विश्वस्य भुवनस्य धर्ते ध्रुवे यधुवेन्द्रेश्वस्मै प्राणायाय ज्ञानाय दानाय प्रतिष्ठायै चरित्रायिना सन्दमेव काण्डाः काण्डात् प्ररोहन्ते परुषः परुषः परे एवानो प्रथमसहस्रेण शतेन चेण प्रथनोषसहस्रेण विरोहति तस्याः देवेटे विधेमहविषा भयम् अषाढा सहस्वारादि सहस्परादि यदः सहस्रपदनात् सहस्रपदन्यः सहस्रवीर्याधुक्षरम् निसिन्धवः माद्भेर्णः सन्तोषेः मधुरर्तपतो मधुमपार्थिषुपकुंवजः मधुर्यौरस्तु नः पिता मधुवान्मो वनश्वनिर्मधुमागुम् वस्तु सौर्यः माद्भेर्गावो भवन्तु नः महेद्याः पृथिवेदनयमैर्यम् विमिक्षताम् विवृतान्ना परेमभिः तद्विष्णाः परमम् पदम् तदा पश्यन्ति तोरजः दिवे पचक्षुरातम् ध्रुवादिपृथिविग्रास्वपदम् यदः श्रोतादेवेऽभिरभृतेणागाः यास्तेवमावन्ति रश्मिभिः सर्वाभिरुतेयणस्कृतिः दे यावो देवाः सूर्ये गोष्पस्मेताभिः सर्वाभिरुदन्नो धत्त बृहस्पते विराज्योतिरधारयत् सम्राज्योतिरधारयत् स्वराज्योतिरधारयत् अग्ने चिक्ष्वाभिरवाश्वासोदेव साधवः अहम् वहन् जाशवः क्ष्वाहिभूतभागुण्डस्वायुम् आग्ने रथेरिव निभोताभोर्यस्तदः दर्धष्टस्कन्दपथिरेमञ्जयोमोर्वः हरे अञ्जो निमलसंज्ञम् दप्सञ्जहात्राम् विश्वश्च भुवनस्य मागिलमाग्रेष्वानस्तदा अर्गज्योतिर ज्योतिष्मान् वृत्मोवर्चावर्चस्वान् ऋवित्सन्ति धारा अभिजाके मेरण्यजो वेदतोभ्य आसाम् तस्मिन् नामगुर्कुलानि भजन्नास्ते मधुदेवताभ्यः ञ्जन् सहस्रस्य प्रतिमाम् विश्वरूपम् परिवृन्धि हरता माभिवृक्षाय सङ्कृनः इमम् वा हि गुंसेपालम् पशुनागुम् सहस्राक्षमेधा दीयमानः मयिमारण्यमनुजेतिना मितेन जिह्वानस्तनुवानु आदस्यर्धाजम् वरुणस्त नाभिमस्वम् जग् ज्ञानकम् सरिलरस्य मध्ये शिशुम् नदी नागम् हरिमद्रुमग्धमग्ने वाहिकम् चेः परमेकम् सीरेखम् पशूनाञ्चनिकलम् वाजिनम् वाजिनेषु गौरवारण्यमनुजेतिना मितेन जिह्वानस्तनुवानिषीड अजस्रविन्दमरुषम्भुरण्वेड पूर्वजिप्रौणमाभिः समोकाम् वाहिमगुम् समुद्रगुम् सानमुत्सम् यच्यमानम् भुवनस्य मध्ये नामजरायज्ञाहि परमे व्योमन् गवयमारण्यमुदानस्तनवारिषेज रोत्रिम् पक्ष्णु वरुणश्च नाभिमुम् ज्ञानागुरजः परस्मात् महेतुम् साहस्रे मधुरश्च मायामग्ने माहिकुम्धेः परमे व्यामन् इमामोहायम् वरुणश्च मायाध्वजम् वसूनाम् दिवदायम् चतुष्पदाम् स्पष्टः प्रजानाम् प्रथमम् जनेत्रमग्ने तो पृथिव्या उदवा दिवः परि येन प्रजा विश्वकर्मा व्याक्तमग्नेहेन परिदेवणम् अजागन्धा सा वा अपश्यन् जनितानमग्नेः या लोहमायन्वमेऽध्याहस्तया देव देवतामग्रायन् शरभाषण्यमरुधेन जम्भाणस्तनुबोनिषिन इन्द्राग्रेलोचनाव परिवारे शुभोषः सर्वाञ्चभिप्रवेर्यम् शिरसभृत्रबुतसमो दिवाजमिन्द्रायो अग्नेशुरेयात् इहद्यन्तापधव्यस्य भोरे सहस्तमासहसा वाजयन्ता प्रजलभेभ्यः प्रदनाहवे्यादेवश्च प्रसिन्धभ्यः प्रगिरेभ्यो महित्वा प्रेन्द्राग् मे विश्वाभुवनात्यन्या मरुदायस्य शिक्षणे पाधादिवो विमानः सर्वगोपादमोजनः यज्ञैर्वा यज्ञवाहतो विप्रस्य वा मीना मरुदश्रुवृताहवम् श्रियतेकम् भानुभिः सम्मिवेक्षिरे अस्तुभिस्तभिस्नुखादयः एवा श्रीमन्तलक्ष्मिणाभीरवभिद्रे प्रियस्य मारुतस्य धाम्नः अवतेहेणमुदुत्तमम् कया निश्चित्राभुवज्योति सदासखा कयानिष्ठयावृता को अर्जयुम् ते भरिकार्षस्य सुमीवतो भाविनो दुर्हृणायोन् आसन्निषोन्हृत्सो मयोमस्तरीवारेवानाकुम् सन्ना भवन्तो वाजे वाजे आप्सावसौढीर्णरुध्यते गर्भे सञ्जायसे पुनः वृषासामद्यमाकुम् अतिवृषा च वृषभ्रतः पटाधर्माणि इमम् वे वरुणतत्त्वाया वित्तम् न अग्ने सत्पम्नो अग्ने ओ